द्वात्रिंशदधिकशततमोऽध्यायः वैशम्पायन उवाच ततो धनञ्जयं द्रोणस्मयमानोऽभ्यभाषत त्वयेदानीं प्रहर्तव्योमेतल्लक्ष्यम् विलोक्यतां मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छदः वितत्यकार्मुकं पुत्रतिष्ठतावन्मुहूर्तकम् एवमुक्तस्सव्यसाची मण्डलीकृतकार्मुकः तस्थौ भासुम् पश्यस्येनं स्थितम् भासम् द्रुवं वामपि चार्जुन पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत न तु भवन्तं पश्यामी पश्यामी वा पश्यामीति च भारत ततः प्रीतमना द्रोणो मुहूर्तादिवतं पुनः प्रत्यभाषत दुर्धर्षः पाण्डवानाम् आहारथम् भासम् पश्यसि तथा ब्रूहि पुनर्वचः शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् अर्जुनेनैव द्रोणो हृष्टतनोरुहः मुञ्चस्त्वेत्यब्रवीत् पार्थं समोचा ततस्त नगस्थ्य क्षुरेण निशितेन चिकृतरसा पातयामस पांडव तस्कर्मि संसिद्धे मेने चद्रुपद संख्ये सानुबंधम पराजित